श्रीरात्रिशुक्तम् श्रीगुरुभ्यो नमः हरिः ॐ रात्रिव्यख्यदायति पुरुत्रा देव्य अङ्क्षवी विश्वा अधिश्रियो ओधित ऊर्वप्रा अर्मत्यानिबतो देव्यो ऊद्वत ज्योतिषाबाधते तमः निरुश्वसा आरमस्कृतोषसं देजा आजते अपेदुहासते तमः शानो ओ अद्य यस्या आ वयं नीते यामन्न विक्ष्मही वृक्षेना वसतिं वयः निग्रामा आशोऽवीक्षत निपद्वन्तो निपक्षिणः निशेनाशश्चिदर्थिनः यावया आवृत्य अअवृकं यवयस्तेन मुर्मे अथा आ न सुतरा आभव उपमापेऽपि सत्तमः कृष्णं व्यक्तमस्थित उसरिणेव यातय उपतेगा इवाकरं विष्णेश्वरभितर्दिवः रात्रिस्तोमं न जिज्ञुषे ए आरा आत्रिपार्शिवं व्रज पितरप्रायधामभि दिवसदा आंसि बृहति वि आत्वे संवर्तते तमः ए ते ए रात्रिनिचक्षसो युक्तासो ॐ नवतिर्लव अशीति सत्त्वष्टा उत ते रात्रिं सप्तसप्तति रात्रिं प्रबध्ये जननीं सर्वभूतनिवेशनिम् भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशां संवेशिनी संवेशिनी एशयमलि गृहनक्षत्रमालिनीं प्रपण्डोऽहं रात्रिं भद्रे पा मही भद्रे पारमसी मह्वोन्नमः स्याविप्रयतो देवीं शरण्या आं बह्वच्चप्रियां सहस्रसंमितां दुर्गां जातभेदसे सुनवाम सोमं सान्त्यर्थं तद् विद्यां द्विजातीना आम् ऋषिभिः सोमपाश्रिता ऋग्वे एत्वं समुत्पन्नाद्रा आत्रीयते निदहतिवेदः ए त्वा आं देवि प्रद्यनातिब्राह्मणा आद्यवाहनिम् अविद्या बहुविद्या वासनां प्रसरति दीर्गाणि विश्वा अग्निवर्णां शुभां सौम्यां कीर्तयिष्यन्ति ये द्विजाहं तां स्तारयति दुर्गा आडी नावेव सिन्धुं दुरितात्यग् दुर्गे एषु विषमे घोरे सङ्ग्रामे एपु अग्निश्चोरनिपातेषु दुष्टग्रहनिवारिणी दुर्गे येषु विषमेषु त्वं सङ्ग्रामे येषु वदेषु च मोहयित्वा प्रपद्यन्ते तेषां ए अभयं कुरु केशिनीं सर्वभूतानां पञ्चमिति च नाम सा मां समानि सा देवी ई सर्वतपरिरक्षतु सर्वतपरिरक्षत्वोन्नमः तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफले सुयृष्णा आं दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः सुतरसि तरसे नमः दुर्गां दुर्गेषु स्थानेषु शं य एवं दुर्गास्तवं पुण्यं रात्रौ रात्रौ रात्रौ सदा पठेन् रात्रिकृषिकसोभरो रात्रिर्वाभा आरज्वाजे रात्रिस्तवो गायत्री रात्रि ए सूक्तं द्यपे नित्यं तत्कालमुपपद्यते उलूऊकयातु शुशुलूकयातो जहि स्वया आतुमुत कीकयातुं शपणया आतुमुत गृद्धयातुं इन्द्र प्रसङ्गभ्रेष्टिशम्भ्रीणं पिसाचिमिन्द्रशम्भृढ सर्वं रक्षो निबहय हेमस्य त्वाजराजुना श्राले परिव्यजामसि उत शदो हि नोधियोग्निर्ददातु भेषजम् सि एतशदो हि नोधियोग्निर्ददातु भेषजम् अन्तिकामग्निर्मजनय मजनय आद्य स्वतः गमत अजातपुत्रपक्षाया आहृदयं मम दूयते विपुलं वनं बह्वा का आसं चरजातभेदकामा आय मां त्यरक्षपुत्रा पिङ्गाक्षलोहितग्रीं ग्रि एव कृष्णवर्णनमोऽस्तु ते अस्मान्निवर्हरस्येनां सागरस्योर्मयोप्यथा इन्द्रक्षत्रं ददातु वरुणमशेष सत्र वो निधनं जान्तु जय त्वं ब्रह्म ते जथाम् कपिलजटिं सर्वभक्तिं चाग्निं प्रत्यक्षदैवतं वरुणं च वसाम्यग्रे हे मम पुत्रास्य रक्षतो मम पुत्रांश्च रक्षत्वोन्नमः साग्रं वर्षशतं जि एव पिबुखा आद च दुःखितांश्च द्विजास्यैव प्रजां च पशुपालय यावदादेस्तपति यावद्ध्राजति चन्द्रमा यावद्वायो प्लवा आयते तावद् जीव जया प्रकारेण कोहिना आमनू जीवते। परे एषामुपकारार्थ यज्जीवति सजीवति जीवति एतां वैश्वानरिं सर्वदे वान्नमोऽस्तु ते न चोरभयं न च नच न च व्याघ्रभयं न च मृत्युभयम् यस्यापमृत्यो न च मृत्यो, मृत्यो सर्वलभते सर्वजते इति परिशिष्टम् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ अक्षिभ्यां ते सुक्तम् अक्षिभ्या आं ते नासिकाभ्यां कर्णा आभ्यां शुभकादति यक्ष्मम् उं शेषण्यम् उं मस्तिका आजिह्वाया विब्रहामि ते केवाभ्यस्तौष्ण्या आभ्यः कीकसाभ्यो अनुक्त्या आत् यक्ष्मम् उं दोषण्य आ मनसा आभ्याम् बाहुभ्याम् आन्तेभ्यस्ते गुदा आभ्यो वनिष्ठो यादधि यक्ष्ं मतस्नाभ्यां यक्नप्लासिभ्यो विभ्रियामि ते उरुभ्या आं ते अष्टिवद्भ्या आं पाणिनिभ्यां प्रपदाभ्यां यक्ष्ं सोळेभ्यां मासदाभ्यसदपुष्वसो विभ्रियामि ते मेहनाद्वनं करणाल्लोमभ्यस्ते नखेभ्यः यक्ष्मं सर्वस्मादात्मनस्तदमिदं विभृहामि ते अङ्गा आदङ्गाल् ॐ शान्तिः शान्तिः शान्तिः हरिः ओ